एकत्रिंशदधिकशतमोऽध्याय वैशम्पायन उवाच ततः द्रोणो भीष्मेण द्विपदाम् वरः विशश्राममहातेजाः पूजितः कुर्वेश्मनि विश्रान्तेऽथ गुरौ तस्मिन् पौत्रानादाय कौरवान् शिष्यत्वेन ददौ भीष्मो वसूनि च गृहम् च सुपरिच्छन्नम् धनधान्यसमाकुलम् भारद्वाजाय सुप्रीतः प्रत्यपादयत प्रभुः स शिष्यान् महेश्वासः प्रतिजग्राह कौरवान् पाण्डवान् धार्तराष्ट्रांश्च द्रोणो मुदितमानसः प्रतिगृह्य च तान् सर्वान् द्रोणो वचनमब्रवीत् रहस्येकः प्रतीतात्मा कृतोपसदनांस्तथा द्रोणौ वाच कार्यम्येकाङ्क्षितम् किञ्चिद्रुधिसम्परिवर्तते कृतास्त्रैस्तत्प्रदेयम् एतदेतद्वदतानघा वैशम्पायनौ वाच तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशाम्पते अर्जुनस्तु ततः सर्वम् प्रतिजज्ञेऽपरन्तप ततोऽर्जुनम् तदा मूर्ध्नि समाघ्राय पुनः पुनः प्रीतिपूर्वम् परिष्वज्य प्ररुरोदमुदातदा ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् राजपुत्रस्तथा चे सम भरतर्षभ अभिजग्मुस्ततो द्रोणमस्त्रे द्विजसत्तमं। सतम वृष्णय्चाधका नानादेश पार्थिवा सूतपुत्र राधेयो गुरम द्रोणमी तदा स्पर्धनस्त पार सूतपुत्रोमर्षण दुर्योधनम् समाश्रित्य सोऽवमन्यत पाण्डवान् अभ्ययात्सततो द्रोणम् धनुर्वेद सर्वेषामेव शिष्याणाम् बभूवाभ्यधिकोऽर्जुनः ऐन्द्रिमप्रतिमम् द्रोण उपदेशेष्वमन्यत एवम् सर्वकुमाराणामिश्वस्त्रम् प्रत्यपादयत् कमण्डलुम् च सर्वेषाम् प्रायच्छच्चिरकारणात् पुत्राय च ददौ कुम्भमविलम्बनकारणात् यावत् ते नोपस्म पिया द्रोण आचा तत्कर्म जिष्णुरोहत तत स वुण्स्त्रेण पूरय्वा कमंडलु सम गुरुम आचार्यपुत्रेण गुरुमभ्येतिगुण आचार्यपुत्रस्मात्शपच पृथक् नव्यहीयत मेधावी पार्थोऽप्यस्त्रविदाम् वरः अर्जुनः परमम् यत्नमातिष्ठद्गुरुपूजने अस्त्रे च परमम् योगम् प्रियो चाभवत् तम् दृष्ट्वा नित्यमुद्युक्तमिश्वस्त्रम् प्रतिफाल्गुनम् आहूय वचनम् अन्धकारेऽर्जुनायान्नम् न देयम् ते कदाचन न चाख्येयमिदम् चापि मद्वाक्यम् विजये त्वया ततः कदाचिद् भुञ्जाने प्रववौ तेन तत्र प्रदीपः दीप्यमानो विलोपितः भुङ्क्त कौन्तेयो नास्यादन्यत्र वर्तते हस्तस्तेजस्विनस्तस्य अनुग्रहणकारणात् तदभ्यासकृतम् मत्वा रात्रावपि स पाण्डवः योग्याञ्चक्रे तस्य ज्यातलनिर्घोषम् द्रोणः शुश्रावभारत उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत्